एकादशोऽध्यायः अमेरिकायाम् अन्यस्थले सो या कल्पयामास स्वामिनो भासनावलिं केवलं धनलाभार्थं तत्कार्यं कुरुते स्म एतत्तु स्वामिना नैव सम्मतं येन हेतुना संविधा स परित्यक्ता स्वामिवर्येण विद्रुतं निमन्त्रितस्तु तत्पश्चाद्धर्मसंस्थाभिराजितः नानाविधसमाजैश्च विधातुं भाषणान्यपि स्वीकृतं स्वामिना तत्तु बहुत्र गतवान् स च भाषणान्यपि त्रिद्वित्राणि चकार च दिने तदीयभाषणं श्रोतुम् आगता बहवो जना भिन्नोद्देशेन ते सर्वे समायातान् संशयः प्राध्यापकादेव कुलीनं महिला गणः कुतुकाविष्टमानसाः कापट्य ते स्वूवंत काट्यभरीताजना अलसदा तथा स्वेच्छा विहारिण अनेक विरोधो स्वामीनामुखीता सेन्मत्ताशेषत निर्भिघस्वामिवर्येण तत्सर्वं गणितं न हि कृतं प्रतिसदा तेन पूर्णभक्ति प्रकाशिता विशुद्धप्रेमभक्तिश्च त्याग इत्यादिका गुणाः शिक्षिताः क्रिस्तेन स्वामी प्रयोक्तुं सार्थलाभार्थं तस्य भाषणवैभवं कृतवन्तप्रयत्नं च केचित्सङ्गाकसुखसकौशलम् आदौ प्रशंसावचनं तत्पश्चाद्भीषणोक्तय सर्वमेतत्कृतं तैस्तु स्वाभि दैवाकुलोऽभवत् सत्यस्य जये वाते भवतीति सुनिश्चितम् अयं तु दृढविश्वासस्वामि चित्ते सदा भवतु स्वतन्त्रचिन्तकायुक्तिवादिनश्च निरीश्वराः देवविश्वासविषये स्वामिनं जेतुमुद्यता तत्कृते घटिता काचित् तभा न्यूयार्क्पत्तने विधातुं भाषणं तत्र स्वामिवर्यो निमन्त्रितः स्वामी तत्र गतो भागं जग्राह च सम्मेलने शुश्रावशकलान्वादान् प्रोक्तान् भौतिकवादिभिः सपद्येव विना भीतिम् तथा निसंशयं ह्यपि एकैकस्यापि प्रश्नस्य स्वामी प्रत्युत्तरं ददौ युक्तिवादो यदा तस्य चरमस्थितिमाप्नुयात् ज्ञायेत् यद्भवत्येव तमचित्यापि किञ्चन सीमा भौतिकशास्त्रस्य व्यक्तरूपेण दर्शिता स्वामिनायेन संजाता, बहवच्छिन्नसंशयाः अन्यस्मिन् दिवसे श्रोतुं स्वामिवर्यस्य भाषणं स्वतन्त्रचिन्तकास्ते च बाहुल्येन समागता अज्ञताविकृताज्ञानं धर्माणाम् उपरि कथं दूरीक्रियेतेति चिन्ता तं पर्यपीडयत् एतेन हेतुना स्वामी निरासोऽभूत् कदाचन सभायां भाषणं कर्तुं तत्परोऽपि न सोऽभवत् अमेरिकाप्रदेशस्य बहुसङ्ख्यकमानुषाः आराधकास्य शिष्याश्च दभो स्वामिनो धृतम् ते जना कल्पयामासु सम्पूर्णास्तस्य संविधाः निर्देशाः सकलास्तस्य तैर्जनैरनुवर्तिताः विशेषेण कृतज्ञ स तत्रत्यवनिता प्रतिष्येभ्यो भारतीयेभ्य प्रशंसलीलेखसः भारतीयमहिलानां दयनीयदशामहो अनुस्मृत्य तदा स्वामी नितरां दुःखितो भवत् अतिदीनपरिस्थित्यां स्वस्य काचित् सहोदरी आत्महत्यां च कारेति स सोक्तं स्वामिना स्मृतं भाषणे नार्जितं वित्तं प्रेषितं तेन किञ्चन वराहनगरस्थायै विधवा संसाधनैर्जुतम् अनुभूतं यदा तेन विदेशे लौकिकं सुखं दुर्दशा भारतीयानां कदापि न विस्मृता भ्रमणं नव भूखण्डे यदा स्वामी समारभे तस्य देशस्य सम्पत्या निदानं तेन लक्षितम् उत्करसम्भौतिकं नूनं पाश्चात्यजना आप्नुवन् अध्यात्मज्ञानसम्पत्तिं किन्तु नैव समर्जयन् भारते विद्यमाना भून् विपरीतविधिस्थितिः अध्यात्मभावः प्रचुर किन्तु नो भौतिकोन्नतिः एतस्य स्थितियुग्मांस्य योजनं तेन चिन्तितम् अमेरिकाप्रदेशे परिभ्रमणं यदा करो धनं भौतिकविज्ञानं यान्त्रिकं कौशलं तथा समर्पयेद्भारताय सर्वमेतद् अमेरिका अमेरिकाप्रदेशाय भारतेन तथाविधं प्रतिदीयेत् निर्व्याजम् अध्यात्मज्ञानमुत्तमं नव्यमर्तसमूहस्य रचनैवं भवेत् तथा आत्मनश्च शरीरस्य श्रेयः स्यादिति तन्मतिः मिसिप्पी च ट्रें डेट्रोयेन् न्यूयार्क्नगरं तथा वाशिङ्ग्टन् बोस्टन् इत्यादि स्थलेषु व्यतिरत् स च भाषणेषु च चर्चासु स्वामी भागं गृहीतवान् तदीयव्यक्तिमाहात्म्यं सर्वानाकर्षयद्भृशम् वासखाद्यादिकं तस्य कल्पितं विविधैः जनैः स्वामिवर्यस्य शिष्यत्वं स्वीकृतं बहुभिर्यपि स्वस्य कार्यक्रमान् सर्वान् प्रतितेन सविस्तरं भारतस्थिते शिष्येभ्य पत्राणि लिखितान्यपि अनुभूतं क्षणात्तेन स्वकर्मसु नियन्त्रणं भवतीति स्वमित्राणां नरिणाम् अभिवाञ्छया तेषां बन्धं परित्यज्य प्रदातुं परिशीलनम् अध्यात्मजीवने सुभ्यो युवकेभ्य स बेलने मेलने भाषणं कर्तुम् उदासीनो बभूवस व्यक्तिप्रभावनिर्माणे मौनभावे च तत्परः वित्तभारं तथा तस्य सहजक्लेशं सङ्ग्रहं सोढुं तत्परता काचित् जीवनं सुकरं नेतुं कर्तुं सेवनं तेनेष्टं भारते यद्वत् संन्यासी जनयाचरत् एतन्मध्ये धर्मं अधिकृत्य प्रभाषितुं ब्रुक्लीन् नाम स्थले दैवा स्वामिवर्यो निमन्त्रितः अध्यापका नियमज्ञा भीषजो नीतिपालकाः बहवो स्वामीवर्य भाषण श्रोत आगता हिंदुधर्म से महात्म्यम गायता स्वामीना यदा प्रोक्त श्रोता तो सवधा अवस्थिता दयाकनेशा नैक छात्र अकिंचना धर्मादिकोपदेशार्थं वस्तुं च तं न मन्त्रयन् स्वामिवर्येण श्रीशङ्कम् एतद्गी एतन्गी एतङ्गीकृतं द्रुतम् अव्यवस्थितकक्षैका तस्य वासाय निश्चिता भारतस्थितिसामान्यसन्न्यासीव बभूवस सादरं तस्य वाक्यानि छात्रसवृता तथा स्वामी राजयोगं ध्यानं राजिक्षत आत्मनग्रह ध्यान ललिता जीवनमी अध्यापन विवधेशु वर्गेशुर भाषण चा लेखनं लेखनम समाचरत। अत्रान्तरे राजयोग इति ग्रन्थं निलेखस परीक्षिणो भव काल एवं यदागत जीर्णवस्त्रमहं काङ्खे शीर्षकं मम मुण्डितं निद्रां च पादपस्याधो भिक्षया मम भक्षणम् इत्येवं व्यलपत् स्वामी भग्ना संकदाचन विदेसे विदेशे हिन्दुधर्मस्य प्रसारो बहु दुष्करः संन्यासविधिवत्तत्र व्यक्तिजीवनकल्पनम् अत्यन्तं कठिनं कर्म भवति तेन संशयः अमेरिकाप्रदेशे स एवं संवत्सरद्वयम् चतित्याध्यात्मकर्माणि विविधाले निरूढवान् विश्रमावसरं देवान् अस्मिन् काले स लब्धवान् पेर्सी नामस्थले तस्य श्रुतस्कश्चिदवर्तत तन्मित्रं स्वामिनं तत्र समागन्तुं न मन्त्रयत् निदाघकालशिबिरं यत्र मित्रेण चालितम् देवदारुसमूहस्य नीचैनिशब्दतान्तरे स्वामी लभेत विश्रान्तिम् इति मित्रेण सूचितं न्यूयार्कवासि निद्यच्च नाम्नार्यपि सादरं तस्या ग्रीष्मकुटीरे स निवेशेदेत्यसूचयत् एतन्निमन्त्रणं चापि मुदा पे पेर्सी नाम स्थलं स्वामी प्रथमं गतवान् तथा तत्रत्य विजयनारण्यं गच्छते स्म दिने दिने एकान्ते भगवद्गीतां निर्विघ्नं पठति स्म च अल्पकाले व्यतीते स पेर्सी त्यक्त्वा प्रयातवान् डचर् नाम्ना महिलाया ग्रीष्मकालकुटीरं कुटीरकम् सहस्रदीपोपुवनम् इत्याख्यातं तत्स्थलं सेण्टलारंसतटिनीतीरे सैनपादे व्यवस्थितं छित्वा कुटीरके द्वीपान् अनेकान् सुन्दरान् तथा विशालनिम्नगां चापि सप्तति पर्यवेक्षितुं सम्पूर्णनिर्जनस्थाने कुटीरकं कर्मवत वर्तत कीटपक्षेश्वरं दलं अमर अमरं केवलं श्रुतम् विवेकानन्दवर्यस्य विशिष्टोद्देश्यलब्धये एतत् कुटीरमत्यन्तम् अनुरूपम् अभूदपि स्वामिनो बहवशिष्या न्यूयार्क् नगरे स्थितं ताः तदीयागमनेनाद्य नितरां तुष्टमानसाः शिष्याणां दृढबद्धानां द्वादशानां हि केवलं शिक्षणं स्वामिवर्येण कृतस्मिन् कुटीरके तदीयदैवि किम्बिकज्ञानं वाग्मिता विस्मया वहा अतुल्यबुद्धिसामर्थ्यं सर्वम् अत्र प्रकाशितं दिनानि यानि नीतानि स्वामिना दक्षिणेश्वरे आगतानि तदा तस्य स्मृतिमध्ये पुनः पुनः आध्यात्मिको यदानन्दः संलब्धो दक्षिणेश्वरे त एव शिष्यैरे तस्मिन् कुटीरेऽपि समर्जितः वेदान्तो भगवद्गीता तथैवोपनिषद्गणः आम्नायायितरे चापि स्वामिवर्येण शिक्षिताः गुरुदेवं समाश्रित्य स्वामिनोक्तं सविस्तरम् उद्धृतानि पुराणानि व्यक्तीकर्तुं निजाशयामि एलन् वाल्डो इत्याख्यया शिष्यया लिखितो शपि उत्तेजितोक्तयो नाम ग्रन्थस्तद्भाषणं प्रति सहस्रदीपोपवने वासं स्वामी यदाकरोत् आसीदुत्तमस्थित्याम् इति तेनोक्त मे कला आध्यात्मिकप्रभावो य स्वामिना तत्र दर्शितः तेन सर्वे जना जाता आश्चर्यचकिता वृषम् अति सुप्रधानो भूस्वामिवर्यस्य जीवने तस्मिन्नुपमने तेन व्यैतसमयो दृढम् स्वामिना लिखितं पश्चात् तत्रत्यानुभवं प्रति गानं संन्यासिनो लाभत्यागवैराग्यदीपकं सहस्रदीपसदनं परित्यज्य ततः प्रयाणं प्रयाणम् अकरोत् स्वामी न्यूयार्कनगरं प्रति अमेरिकाप्रदेशे तु स्वामिवर्यो यदावसत् बभूव तस्य सम्पर्कप्रमुखं व्यक्तिभिः स्वामिनो ज्ञानवैपुल्यं व्यक्तित्वं बुद्धिवैभवं सर्वैरेतैः समाकृश् समाकृष्टास्ते जना सकला अपि न्यूयार्क्नगरे मासमेकं स निवसत् यूरोपाख्यप्रदेशं स पो गतो शपि